श्रीमद्भागवत् महापुराणं दसंस्कन्ध द्वयं सीतितमोऽध्यायः अथ ते रामकृष्णाभ्यां सम्यक् प्राप्तसमर्हणाः प्रशसंशोर्मुदा अहो भोजपते योऽयं जन्मभाजो नृणामिभ्य यत्पश्यथा सकलन्द्रकृष्णं दुर्दशमभियोगिनां यद्विश्रुतिश्रुतीनु ते दमलं पुनाति पादावले भूकाल जनपश्च वचश्च पद्म। भूकालभर्जितभगापि यद्धृङ्गपद्म स्पर्शोत्थशक्तिरभिवर्षति नोऽखिलार्थान् तद्दर्शनस्पर्शनानुपथप्रज्वल प्रजल्प सय्यासनासनस यौनस पिण्डबन्ध येषां गृहे निर्यवर्त्मनिवर्ततां व स्वर्गापुवर्गविरम स्वयमासविष्णु शिशोकुवाच नन्दस्तत्र यदुं प्राप्तान् ज्ञात्वा कृष्णपुरोगमान् तत्रागमद्वितो गोपये अनस्थास्थये निरीक्षया तं दृष्ट्वा विष्णयोशिशिष्टां तन्वप्राणविबोत्थिताः परिसद्विदे गाढं चिरदर्शनकातराः वसुदेवः परिष्वज सम्प्रीत प्रेमविबलः स्मरन् कंसकृतान् पुत्रन्यासं च गोकुले कृष्णरामौ परिष्वज्य पितरावभिवाद्य च न किञ्चनोचतु प्रेम्णाशासुकण्ठौ कुरुद्वः तावात्मासनमारोप्य बाहुभ्यां परिरभ्य च यशोदा च महाभागासुतौ विजहतु शुचः रोहिणीदेवकी चाथ परिष्वज्य व्रजेश्वरीम् स्मरन्तौ तद्गृतां मैत्रीं वाष्पकंसौ समुचतुः ता विस्मरेतु मां मैत्रीम् अनिवृत्तां रजेश्वरी अवाप्याप्ययेन्द्रमैश्वर्यं यस्या नेह प्रतिक्रियाम् एतावदिष्टपितरौ युवयोस्म पितुः पित्रोः सम्प्रीणाद्भुतन्दयपोषणपालनानि प्राप्यो चतुर्भवति पक्ष्मह यद्वदक्षिणो नस्तावकुत्र च भयो न सतां परश्व शिशुकुवाच गोप्यश्च कृष्णमुपलभ्य चिरादभीष्टं यत्प्रेक्षणेन्द्रिशिषु पक्ष्मकृतं शपन्ति दिग्भृहृदीकृतमलं परिरभ्य सर्वा तद्धाव मां पुरपि नित्ययुजां दुरापम् भगवान् तास्तथा भूता विविक्त भी उपसङ्गतः आश्लिष्या नामयं पृष्ट्वा प्रहसन्निदमब्रवीत् न पि स्मर्थ न शख्य स्वानामर्थ चिकित्सया गता चिरायिता शत्रूपक्षं पणचेतसः अप्यवध्या यथास्मान् छेदकृतज्ञाभिशङ्कया नूनं भूतानि भगवान्युनक्ति विमुनक्ति च वायुर्यथा घनानीकं तृणं तूलं रजांसिच च संयोज्याक्षिपते भूयस्तथा भूतानि भूतक्रिये नैभक्तिर्हि भूतानाम् अमृतत्वाय कल्पते दृष्टा यदा सिन्मत्नेहो अहं हि सर्वभूतानाम् आदिरन्तोऽन्तरं वही भौतिकानां यथाखं वा भुर्वायुर्ज्योतिरङ्गनाः एवं ह्येतानि भूतानि भूते स्वात्मात्मना ततः उभयं मय्यत्परे पश्यत भातमक्षरे श्रीशु उवाच गोप्य एवं कृष्णेन शिक्षिताः तदनुस्मरणस्वध्यस्तजीवकोशास्तमध्यगम् आहूष्यते नलिनपुल्नाभपदारविन्दं योगेश्वरैर्ति विचिन्त्यमगाधबोधैः संसारकूपतितोत्तरणावलम्बं गेहं जुषामपि मनसुदिहा सुधियात् सदा न श्री श्रीमद्भागुते महापुराणे प्रभुंशां शयितायां तसंस्कन्धे उत्रार्धे कृष्णगों कृष्णविष्णुगोपसङ्गमो नाम जयसेति तमोऽध्यायः